मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेण्टि टु कार्तिकमासमाहात्म्ये नानानियमनिरूपणं श्रीगणेशाय नमः सूत उवाच कर्णाडे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः नामना सर्वप्रियसोपि कार्तिकव्रतमाचरद रादस्नानं च कृत्वा तु गणेशपूजने रतः नियमेन समाविष्टो गाणपत्यप्रियोऽभवद तत्रैकः क्षत्रियशुद्धस्नानं कृत्वा शमीं परां जले नाशिच्य भीमाख्य प्रदक्षिणपरो भवद अन्यकैवर्तकस्तत्र तथा मन्दारकं मुनि पूज्य मेघप्रियस्नात्वा प्रदक्षिणपरो भवद वैश्यो गवां पुष्पवाहशुश्रूषायां रदोऽभवद स्नात्वा गणपतिं ध्यात्वा गोरूप धरमादराद शूद्रश्यामलसंज्ञस्तु दीपदानं चकारः गणेशप्रिदये नित्यं स्नात्वा मासव्रते रतः अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः ब्राह्मणान् भोजयामास नित्यम् भावपरायणः कारुकः पद्मनामा वै स्नात्वा नित्यम् नमामः गणेशम् भावसंयुक्त कार्तिकव्रतसंस्थितः शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतो भवद तीर्थम् कार्तिकमास्ये स जग्राहगणपश्यतु एवं नाना जनास्तत्र गणेशप्रीदये मुनि स्नात्वा किञ्चित् स्वभावेन भजंस्तम् गणनायकम् रोगवन्ध्यादिदोषैस्ते विशेषदः। समाप्ते व्रतमुख्ये धनधान्ययुधा बभुः अन्ते स्वानन्दक सर्वे गणेशं नम्य तत्क्षणाद् ब्रह्मभूता बभूश्च कार्तिकव्रतपुण्यदः अध कार्तिकमासस्थं व्रतं कार्यं विशेषदः गणेशप्रदये विप्र सर्वसिद्धिप्रदायकं नियमेन समाभक्तिर्न भूता न भविष्यति किञ्चिन्नियमसंयुक्तो गणेशं वशमानयेध नियमेन कृतं किञ्चित् गणेशप्रीदये नरैः भवेत् गुणं विप्र सर्वसिद्धिप्रदायकम् कार्तिके स्नानमत्यन्तं मुख्यं विघ्नेशसेवनम् यथाशक्तिकृतं कृतं प्रभविष्यति करोति ह्यः कार्तिके चेत्पञ्चकं गणपप्रियं स गणेशप्रियोऽत्यन्तं दानं होमादिकं किञ्चित् कार्तिके नन्दगुण्यदं भवेत्तु गणनाथाय चार्पितं कर्मजं फलं बहुनात्र किमुक्तेन नमनं सकृत गणेशाय कृतं नित्यं तदक्षय्यप्रदं भवेद् इदं कार्तिकमासस्य माहात्म्यं कथितं मया गणेशलोकतं पुण्यम् इह सौख्यप्रदं परं यशृणोति नरोभक्त्या पठते भावसंयुधः सोऽपि पा मानवाप्यैव गणपत्यप्रियो भवेद् अन्यदेव परा एव वै कार्तिकव्रतसंस्थिताः तेषां लोकसुखं सर्वमन्दि भुञ्जन्ति निश्चितम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नाना नियम नियमनिरूपणं नाम द्वाविंशोऽध्यायः ओम्